दशमः सर्गः वाक्यमेतत्तु वैदेह्या व्याहृतम् भर्तृभक्तया श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचा अथ जानकी हितमुक्तम् त्वया देवि स्निग्धया सदृशम् वचः कुलम् व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे किम् नु वक्ष्याम्यहम् देवि वचः क्षत्रियैर्धार्यते चापो शब्दो भवेदिति ते चार्तादण्डकारण्ये मुनयः संशितव्रताः मांसीते स्वयमागम्य शरण्यम् शरणम् गताः वसन्तः काल वने मूलफलाशनाः न लभन्ते सुखम् भीरुराक्षसैः क्रूरकर्मभिः भी। भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः ते, ते भक्ष्यमाणामुनयो दण्डकारण्यवासिनः अस्मानभ्यपपद्येति मामूचुर्द्विजसत्तमाः मया तु वचनम् श्रुत्वा तेषामेवम् मुखाच्छ्रुतम् कृत्वा वचनशुश्रूषाम् वाक्यमेतदुदाहृतम् प्रसीदन्तु भवन्तो मे श्रीरेषा तु ममातुला यदीदृशैरहम् विप्रैरुपस्थेयैरुपस्थितः किम् करोमीति च मया व्याहृतम् द्विजसन्निधौ सर्वैरेव समागम्य वागेयम् समुदाहृता राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः अर्जिता स्म भृशम् रक्षतु होमकाले तु सम्प्राप्ते पर्वकालेषु चानघा धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशिताशनाः राक्षसैर्धर्षितानाम् च तापसानाम् तपस्विना गतिम् मृगयमाणानाम् भवान्नः परमागतिः कामम् तपः प्रभावेण शक्ता चिरार्जितम् न चेच्छामस्तपः खण्डयितुम् वयम् बहु विघ्नम् नित्यम् दुश्चरम् चैव राघव तेन शापन्न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः तदर्ज्यमानान् रक्षोभिर्दण्डकारण्यवासिभिः रक्षनस्त्वम् सहभ्रात्रा वने मया चैतद्वचः श्रुत्वा कार्त्स्न्येन परिपालनम् ऋषीणाम् दण्डकारण्ये संश्रुतम् जनकात्मजे संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम् मुनीनामन्यथा कर्तुम् सत्यमिष्टम् हि सदा अप्यहम् जीवितं जह्याम् त्वाम् न तु प्रतिज्ञाम् संश्रुत्य ब्राह्मणेभ्यो विशेषतः तदवश्यम् मया कार्यमृषीणाम् परिपालनम् अनुक्तेनापि वैदेहि प्रतिज्ञाय कथम् पुनः हा। मम स्नेहाच्च सौहार्दादिदमुक्तम् त्वया वचः परितुष्टोऽस्म्य हंसीते न ह्यनिष्टोऽनुशास्यते सदृशम् चानुरूपम् च कुलस्य तव स धर्मचारिणी मे त्वम् प्राणेभ्योऽपि गरीयसी इत्येवमुक्त्वा वचनम् महात्मा सीताम् प्रियाम् मैथिलराजपुत्री रामो धनुष्मान् सह लक्ष्मणेन जगाम तपोवनानि इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे दशमः